ब्रह्माण्डपुराणं मध्यभागम् अध्यायं ट्वेल् श्राद्धकल्पं सूत उवाच देवाश्च पितरश्चैव अन्योन्यं नियताः स्मृताः आधर्वणस्त्वेषविधिरित्युवाच बृहस्पतिः पूजयेत पितॄन्पूर्वं देवांश्च तदनन्तरम् देवा अपि पितॄन् पूर्वमर्चयन्ति हि यत्नतः दक्षस्य दुहिता नाम्ना विश्वानामेदि विश्रुता विश्वाख्यास्तु सुधास्तस्यां धर्मदो जज्ञिरेदश प्रख्यातास्त्रिषु लोकेषु सर्वलोकनमस्कृताः समस्तास्ते महात्मानश्चे रुरुग्रं महत्तपः किमवच्चिखरे रम्ये देवर्षिगणसेविदे शुद्धेन मनसा प्रीदा ऊचुस्ताञ् पितरस्तदा वरं वृणीध्वं प्रीदा स्म कामं करवामहे एवमुक्ते दु पितृभिस्तदा त्रैलोक्यभावनः ब्रह्मो वाजमहातेजास्तपसा तैस्तु तोषितः प्रीतोऽस्मि तपसानेन कं कामं करवाणि वः एवमुक्तास्तदा विश्वे ब्रह्मणा विश्वकर्मणा ऊजुस्ते सहिताः सर्वे ब्रह्माण्डं लोकभावनं श्राद्धेऽस्माकं भवेदं सोह्येष नः काङ्क्षितो वरः प्रत्युवाच ततो ब्रह्मा तान् वै त्रिदशपूजितः भविष्यत्येवमेवं तु काङ्क्षिदो वो वरस्तुयः पितृभिश्च तथेत्युक्तमेवमे दन्न संशयः सहस्माभिस्तु भोक्तव्यं यत्किञ्चिदृश्यते अस्माकं कल्पिते श्राद्धे युष्मान्प्राशनं हि वै भविष्यदि मनुष्येषु सत्यमेतद् ब्रुवामहे माल्यैर्गन्धैस्तधान्येन युष्मानग्रेऽर्चयिष्यति अग्रे दत्वादु युष्माकमस्माकं दास्यते तदः विसर्जनमथास्माकं पूर्वं पश्चात्तु दैवतं रक्षणं चैव श्राद्धस्य आतिथ्यस्य विधिद्वयं भूतानां देवतानां च चा पितॄणां चैव कर्मणि एवं कृते सम्यगेदत्सर्वमेव भविष्यति एवं दत्वा वरं तेषां ब्रह्मा पितृगणैः सह क्षमानुग्रह कृेव सञ्चकार यथोदितं वेदे पञ्चमहायज्ञा नराणां समुदाहृताः वेदान् पञ्चमहायज्ञान्निर्वपेत् सततं नरः यत्र स्थास्यन्ति वै निबोधत निर्भयं विरजस्कं च निःशोकं निर्व्यथक्लमं ब्राह्मं स्थानमवाप्नोति सर्वलोकपुरस्कृतं शूद्रेणापि च कर्तव्याः पञ्चैते मंत्रवर्जिता दुः भुंग्रे स ऋण निश्ते ऋण भुंक्रे सत्मा यचेम करमर्त महाय सदाबुध उदकपूर्वे पूर्वे बलिं कुर्यादुदकान्ते तथैव च बलिं सुविहितं कुर्यादुच्चैरुच्चतरं क्षिपेद् परशृङ्गं गवामोत्रं बलिं सूत्रं समुत्क्षिपेद् तन्निवेद्यो भवेत्पिण्ठः पितॄणां यस्तु जीवति इष्टान्नेन भक्ष्यैश्च भोजयेच्च यथाविधि निवेद्यं केचिदिच्छन्ति जीवन्त्यपि हि यत्नतः देवदेवा ह्येदे देपिदर इत्युत इच्छन्ति केचिदाचार्यपश्चात् पिण्डनिवेदनम् पूजनं चैव विप्राणां पूर्वमेवेह नित्यशः तद्धि धर्मार्थकुशलो नेत्युवाच बृहस्मतिः पूर्वं निवेदयेत्पिण्ठान् पश्चाद्विप्रांश्च भोजयेद् योगात्मानो महात्मानः पितरो योगसम्भवाः सोममाप्याययन्त्येदे पितरो योगसंस्थिताः तस्मादद्याच्छुचिः पिण्डान्योगेभ्यस्तत्परायणः पितॄणां हि भवेदे ब्रह्मणानां सहस्रस्य योगस्थं ग्रासयेद्यति यजमानं च भोक्तृंश्च नौरिवाम्भसितारयेद् असदां प्रग्रहो यत्र सदां चैव विमानता दण्डोदैवकृतस्तत्र सद्यः पदति दारुणः इत्त्वा मम सधर्माणं बालिशं यस्तु भोजयेत् आदिकर्म समुत्सृज्य दादा तत्र विनश्यति पिण्डमग्नौ सदा दध्यभोगार्थी प्रथमं नरः दद्यात् प्रजार्थी यत्नेन मध्यमं मन्त्रपूर्वकम् उत्तमां कान्तिमन्विच्छन् गोशुनित्यं प्रयच्छति प्रज्ञां चैव यशकीर्तिमप्सु वै सम्प्रयच्छति प्रार्थयन्दीर्घामायुश्च वायसेभ्यः प्रयच्छति सौकुमार्यमथान्विच्छन् कुक्कुडेभ्यः प्रयच्छति एवमेतत् समुद्दिष्टं पिण्डनिर्वपणे फलम् आकाशे गमयेद्वापि अप्सु वा दक्षिणामुखः पितॄणां स्थानमाकाशं दक्षिणा चैव दिग् ये के विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रदः अनुज्ञातस्तु तैर्विप्रै कामसुद्ध्रियतामित् पुष्पाणां च फलानां च भक्ष्याणामन्नतस्तथा अग्रमुद्धृत्य सर्वेषाम् जुहुयाद्धव्यवाहने भङ्ग्यमन्नं तथापेयम् पेयं मूलानि च फलानि च हुत्वाग्नौ च ततः पिण्डान्निर्वपे दक्षिणामुखः पश्चाप्राश्च भोजूव तदो विप्रान्ष्य श्रिद स्निग्धरुशसुगंध्रसैरपीकाग्रपर्युवासी नयद प्राचलिस्थि तत् परश्रद्धधानश्च कामानाप्नोति मानवः अक्षुद्रत्वं कृतज्ञत्वं दाक्षिण्यं संस्कृतं वचः तपो यज्ञांश्च दानं च प्रयच्छन्ति पितामहाः अधः विधिं सौम्यं भुक्तवस्तुद्विजादिषु आनुव्येण विहि तन्मे निगदधश्रृणु प्रोक्ष्य भूमि मधोधृत्य पूर्व पितृपरायण तद निखि कुया दृष्टेन कर्मण स्वधाच्यो विप्रा विधिवूरदिणा अन्नशेषम्ञाप्य विसर्जयेत प्रयतशम्य विसर्जय ब्रह्माडे महापुराणे वायुप्रोक् मध्यभागे तृतीय उपोद श्राद्धकश्याय ओ um.